त्रिंशोऽध्यायः द्रौपद्युवाच नमो धात्रे विधात्रे च यौमोहञ्चक्रतुस्तव पितृपैतामहे वृत्ते वोढव्येतेऽन्यथा मतिः कर्मभिश्चिन्तितो लोको गत्याम् गत्याम् पृथग्विधः तस्मात् कर्माणि नित्यानि लोभान्मोक्षञ यीया सति नेहधर्मादृशम् स्याभ्याम् न क्षान्त्यानार्जवेन च पुरुषश्रियमाप्नोति न घृणित्वेन कर्हिचित् त्वाम् च भ्रातरस्ते महौजसः न हि ते ध्यगमम् जातु तदानीन्नाद्यभारत धर्मात् किञ्चिदपि चेज्जीवितादिह धर्मार्थमेव ते राज्यम् धर्मार्थम् ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मम् परित्यजेः राजानम् धर्मगोप्तारन्धर्मो रक्षति रक्षितः इति मे श्रुतमार्याणाम् त्वाम् तु मन्येन रक्षति अन्यारव्याघ्र धर्मे ते बुद्धि सततम वेति पुषं निजा नवमंस्था सदृशा नावरांश्रेयस कवाप्यपृथम वर्धत